श्रीहर्ये नमः अत त्रयोदशोऽध्यायः श्रीसुक उवाच साधुभ्रष्टं महाभाह त्वया भागवतोत्तमां यन्नूतनयसीशस्य शृण्वन्नभिकथा मुहुः सतामयं सारभृतां निसर्गो यथार्थवाणी श्रुतिचेतसामपि प्रतिक्षणं नव्यवत्तच्युतस्य यस्त्रिया विटानामिव साधुवार्ता शृणुष्व अभिहितो राजन् अभिगुह्यं वधामिते ते भ्रूयुनिग्धस्य शिक्षस्य गुरवो गुह्यमप्युत तथा गवतनान् मृत्यो रक्षित्वा वत्सपालकान् सरित्पुलिनमानीय भगवानिदमब्रवीत् अहोतिरं यं पुलिनं वयस्याः स्वकेसि पुटत्सरोगंधाकृतालिपत्रिकं वालुकं पुटत्सरोगन्धाकृतालिपत्रिकध्वनिप्रदित्वा नलसद्रुमाकुलम् अत्र वत्सा सीपे पह पीता चरंत शनकृणम तथेति पाय्वा वत्सा साध्वले मुक्त्वा सुख्यानि भुभुजो समं भगवता मुधा कृष्णस्य विश्वक् पुराराजिमण्डलै अभ्यायनाः पुल्लदृशो व्रजार्भगाः सहोपविष्टा विपिने विरेजुश्चता यथाम्भोरुकर्णिकायाः केचित् पुष्पैर्तलै केचित् पल्लवैः अङ्कुरैः पलैः दृशद्भिश्च बुभुजोकृतभाजनाः सर्वे मितो दर्शयन्त स्वस्वभोज्यरुचिं हृत असन्तोहासयन्तश्चाभ्यवजह्रुःसहेश्वराः बिभ्रद् वेणुं जठरपठयो ्युष्टन्मध्ये स्वपरिसुहृदो हासयन्नर्मभिक् स्वपैः स्वर्गे लोके मिषधि बुभुजे यज्ञभुक् बालकेलिः भारतैवं वत्सभेषु पुञ्जानेष्वच्युतात्मसु वत्सास्त्वन्तर्वने दूरं विविशुस्तृणलोभिताः तान् दृष्ट्वा भयसन्त्रस्ता पूचे कृष्णोऽस्य बीभयं मित्राण्यासान्मा विरमथ इहानेष्ये वत्सकानहम् इत्युक्ता अद्रिधरी कुञ्जघस्वरेषु आत्मवत्सकान। विचिन्वन् भगवान् कृष्णः सपाणि कवलो अम्भो जन्म मायार्भकस्येसितुः द्रष्टुं मञ्जूमहि त्वम् अन्यदभि तद्वस्थानितो वत्सपान् नीत्वा अन्यत्र धुरुत्वकान्तरधतात्के अवस्थितो यः पुरा दृष्ट्वा गासुरमोक्षणं प्रभवतः प्राप्तः ततो वत्सा पुलिनेऽपि च वत्सपान् उभौ अपि वने कृष्णो विचिकाय समन्ततः क्वाभ्यद्दृष्ट्वान्तर्विपिने वत्सान् बालांश्च विश्ववेत् सर्वं विदिकृतं कृष्ण सहसा अवजगामः ततः कृष्णो मुदं कर्तुं तन्मातॄणां च कस्य च उभयायितमात्मानं चक्रे विश्वसृकीश्वरः यावत् वत्सपवत्स काल्पकवपुर् यावत्कराघ्र्यादिकं यावत यावद्विहारादिकं सर्वं विष्णुमयं गिरो अङ्गवधजः सर्वस्वरूपो भव स्वयमात्मात्मगोवत्सान् प्रतिभार्या आत्मवत्सपैः क्रीडन्नात्मविहारैश्च सर्वात्मा प्राविसत्स्रजं तत्सद्वत्तान् बृकन् नीत्वा तत्तद्गोष्ठे निवेशयहा तधात्मा भवत् राजंस्तत्तक् सद्मप्रविष्टवा तन्मातरो वेणुरवत्वरोदिता उत्थाप्य धोर्भिः परिरभ्य ततो नृपोन्मर्दनमर्जलेपनालङ्काररक्षातिलकासनादिभिः संसालितस्वचरितैः ब्रह्मर्ष्यन् सायं गतो यामय गावस्तधो गोष्ठम् उपेश्य सत्वरम् कुङ्कारघोषैः परिहृत सङ्घतान् स्वकान् स्वकान् वत्सतरान् अपाययन् मुहुर्लिखन्त्यः स्वरधौ दसम्पयहा गो गोपि रजौकसां स्वतोकेशो स्नेहवल्याब्धमन्वहं स नैर्निःसीमवृधे यथा कृष्णे त्वपूर्ववत् इत्तात्मात्मनामात्मानं वत्स पालमिषेन सह पालयन् वत्सफो वर्षं चिक्रीढेवनगोष्ठयोः सारमो वनमाविशत् पञ्चशाक्षुत्रियामासो हायनापूरणीष्वजः ततो विदूराश्चरतो गावो वत्सानुपव्रजम् को वर्दनाद्रिशिरसि चरन्त्यो ददृशुस्तृणम् दृष्ट्वा तत् स्नेहभसो स्मृतात्मा सगोव्रज्योत्यात्मबदुर्गमार्गः द्विपात्कगु ग्रीपभुताश्च पुश्च अगात् कुङ्कृतैराश्रुपया जवेन वत्सवत्योप्यभाययन् किलन्त्य इव च अङ्गानि लिखन्त्यस्वौधसम्पयहा गोपास्तत्रोतनायास मौज्ञलञ्झोरुमन्युना दुर्गात्वकृच्छ्रतोभ्येत्य गोवत्स दतृषु सुतान् दतीक्षणात्प्रेम रसाप्लुदासयाम् जातानुरागागतमन्यवोर्भगान् उदुह्यधोर्भिः परिरभ्य मूर्ध्नि घ्राणैरवापुः परमान्मुदं ते ततः प्रवयशो गोपास्तोकाश्लेष सुनिर्वृताः कृश्राश्रणैरभगधास्तदनुस्मृतत्युधश्रवः व्रजस्य रामप्रेमर्धेर् वीक्षाक्यमुण मुक्त अपथ्येष्वी अकेतु विधचित किमें अद्भुतमी वासुदेव किलामनी व्रज से सात्मनस्तोकेशो स्थकेश प्रेम वर्धते केयं केुत आयात दैवी वार्युता सुरी। प्रायो मयास्तु मे भर्दोर्नान्या मेपि विमोहिनी इति सञ्चिन्त्य दासार्हो वत्सान् सवयन्सानपि सर्वा न चष्ट वैकुण्ठं चक्षुषावयुनेन सह नैते सुरे स ऋषयो न चैते त्वमेव भासि स बिधाश्रयेऽपि सर्वं पृथक्त्वं निगमात् कथं वदेत् युक्तेन वृत्तं प्रपुणा बलो वैत् तावद्देत्यात्मभूः आत्ममानेन दृ त्रुट्यनेहस पुरोवधप्तं किरीडन्तं धतृशे सकलं हरिं यावन्तो गोकुले बालात् स वत्सा सर्व हि मायासये स याना मे नाद्यापि पुनरुद्धिताः इतये तेऽत्र कुत्रत्या मन्माया मोहितेतरे तावन्त एव तत्राब्धं किरीडन्तो विष्णुना समम् एवमेतेषु भेतेषु चिरं ध्यात्वा स आत्मभूः सत्याके कतरे नेति ज्ञातुं नेष्टे कथञ्चन एवं संमोकयन् विष्णुं विमोकं विश्वमोहनं स्वयैव माय याजोबेष्वयमेव विमोहितः तं यां तमोवन्नैहारम् कद्योधार्षिरिवाग्नीं महतीतरमायैष्यं निहन्त्य आत्मनि युञ्जतः तावत् सर्वे वत्सफलां पश्यतो जस्य तत्क्षणात् व्यदृष्यन्तघनश्यामा पीतकौसेयवासलः चतुर्भुजाशङ्खचक्र गता राजीवपाणयः किरीटिनकुण्डलिनो कारिणो वनमालिनः श्रीवत्साङ्गतर्धोरत्नकम्बुकङ्कणभाणयः नूपुरैकटकैर्भाता कटिसूत्राङ्गुलीयकै गुळीयगैहेम् आग्रिमस्तगमापूर्णास्तुलसी न वधामभिः कोमलसर्वगात्रु भूरी पुण्यवर्त चंद्रिकाशदस्मेर शारुनाभांगीक्षित स्वर्ताव रज्वाभ्याल आत्मास्तंभपर्यत मूर्तिमिश्चराशर नृत्य गीता पृथक पृथक उपासीता मणिमादर्मकूतिम चतुर्विंशतिपिस्तत्त्व परीतामकदाभिः कालस्वभासंस्कार कामकर्मगुणादिभिः त्वमहि त्वस्तमहिभिर्मूर्तिमद्भिरुपासिताः सद्यज्ञानानन्दानन्द मात्रैर्करसमूर्तयः अपृष्ठभूरिमहात्म्या अपीह्युपनिषद् एवं सकृदर्शाय परब्रह्मात्मनो किलान् यस्य भासा सर्वमितं विभादि सचराचरं ततो दिगतो गोवृत्तस्तिमितैकादशेन्द्रियः तद्धां न अभूतजस्तूष्णेन् पूर्धेव्यन्तीवपुत्रिका इतीरेशे अतर्के निजमहिमनि स्वप्रवितिके भरद्राजातो तन्निरसनमुखब्रह्ममितो अनीशेऽद्रष्टुं किमितमिति वा मुह्यति सति स चाधाजो सभदि परमो जाजमनिकां ततोर्वाक्प्रतिलब्धाक्ष कः परे कृच्छ्रादोन्मील्यभये दृष्टिराष्ठेधं सहात्मना सपद्येवाभितः पश्यन् दिशो पश्चत्पुरस्थितं बृन्दावनं जना जीव्यद्रुमाकीर्णं समाप्रियम् यत्र नैसर्गदुर्बैरात् सहासनृ मृघातयः मित्राणि वाजितावासधृतरुर्धर्षकाधिगं तद्ध्रोद्वहत्पशुपवंशिशुत्वनाढ्यं ब्रह्माद्वयं परमनन्तमघातभूतं वत्सांसकीनिव एकं च पाणिकपलं परमेष्ट्यचष्टृष्ट्वा त्वेरण निजधोरणतोऽवतीर्य पृथ्व्यां वपुःकनकदण्टमिवापिबाध्य स्पृष्ट्वा चतुर्मुकुटकोटिभ्रङ्घ्रियुग्मम् नत्वामुतश्रुषु जलैः अक्रुधाभिषेकम् उत्थायोत्थाय कृष्णश्च शिरस्य पादयोः पथन् आस्तेमखित्वं प्राग्दृष्टं स्मृत्वा स्मृत्वा पुनः पुनः सनैरथोत्थाय विमृज्जलोचने मुकुन्तम् उत्प्रीक्ष्य कृताञ्जलिप्रश्रयवान् समाहितः सवे पथुर्गद्गतयै लतेलया इति श्रीमद्भागवते महापुराणे दशमस्तन्ते पूर्वार्धे त्रयोदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सदगुरुनाथ महाराज के जय